तत्राथैकेन पादेन पातयित्वा तथाशिशुः न्युब्जः पयोधराकाङ्क्षी चकारचरुरोद च पातितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटं जनास्ते शिशुना विस्मयं परमं ययुः प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतं पूतना चापि निहता महा महास्तनी पश्यतां सर्वदेवानाम वासुदेवेन भारत ततःकाले महाराज संसक्तौ रामकेशवौ विष्णुः सङ्कर्षणश्चोभौ रिङ्गिणौ समपद्यताम् अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे विसर्पयेताम् सर्वत्र सर्पभोगभुजौ तदा रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप क्वचिचाघृष्टौ क्रीडम क्वचिवनेबंत दधिकुश मथ्यम भारत